पुम्नाम्नो पुत्रस्त्रायते पितरं श्रुतिः तस्मादपत्यसन्ताने यतस्वब्रह्मसत्तमा वैशंपायनवाचा तच्छ्रुत्वा मन्दबालस्तु वचस्तेषां दिवौकसां क्वनु शीघ्रमपत्यं सचिन्तयन्नभ्यगच्छत् सुबहु प्रसवान् खगान् शार्ङ्गिकां शार्ङ्गिको भूत्वा जरितां समुपेयिवान् तस्यां पुत्रान् जनयत् चतुरो ब्रह्मवादिनः तानपास्य स तत्रैव प्रति बालान् सता नण्डगतान् सह मात्रामुनिर्वने महाभागे लपितां प्रतिभारता अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत् तेन न जहौ पुत्रशोकार्ता जरिता खण्डवे सुतान् बभारचैतान् सञ्जातान् स्ववृत्त्या स्नेहविप्लवा ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवान् ऋषिः मन्दपालश्चरंस्तस्मिन् वने लपितया तम्संकल्पं सङ्कल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान् सोऽभितुष्टावविप्रर्षिर्ब्राह्मणो जातवेदसं पुत्रान् प्रतिवदन् भीतो लोकपालं महौजसम् मन्दपाल उवाच त्वमग्ने सर्वलोकानां मुखं त्वमसिहव्यवाट् त्वमन्तः सर्वभूतानाङ्गूढश्चरसि पावका त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधम् पुनः त्वामष्टधा यज्ञवाहमकल्पयन् त्वया विश्वमिदं सृष्टं वदन्ति परमर्शयः स्वधृते हि जगत्कृत्स्नम् सद्यो नश्येधुताशन तुभ्यम् कृत्वा नमो विप्राः स्वकर्म विजिताम् गतिम्